पितृप्रार्थना प्रार्थना उदीरदाम संहिता उदीरदामवर उत्परा स उन्मध्यमाः पितरसौम्या सह असों य ईयुरवृका ऋतज्ञास्ते नो वन्दो पितरो हवेषु उदीरदा मीरदा मुदीरदा मरे वर इरद मुदीरदा मवरे ईरदा मरे वर इरदा मीरदा मर उदवर ईरदा मीरदा मर उद अवर उदवरे वर उत्परास परास उद वरे वर उत्परा सः उत्परा स परास उदुत्परास उदुत्परास उदुत्परास उद परास उदुत्परास परास उन्मध्यमा मध्यमा उत्परास परास उन्मध्यमाः उन्मध्यमा मध्यमा उदुन्मध्यमापिदर पिदरो मध्यमा उदुन्मध्यमाः पिदरः मध्यमापिदर पिदरो मध्यमा मध्यमा पिदर सोम्यास मध्यमा मध्यमाः पिदरसोम्या सोम्या स य ईयुरीयोर् य ई योरवृका अवृका ईयोर् य ईयुरवृकाः ईयुरवृका अवृका ईयुरि अवृका ई अवृका ऋतज्ञा ऋदज्ञा अवृका अवृका ऋतज्ञास्ते द ऋतज्ञा अवृका अवृका ऋतज्ञास्ते ऋतज्ञास्ते ध ऋतज्ञा ऋतज्ञास्तेनो नस्त ऋतज्ञा ऋतज्ञास्तेनः ऋतज्ञा इत्य ऋत ्याः तेनो नष्टे तेनो वन्द्व वन्तु नष्टे तेनो वन्दु नो वन्द्वन्धु नो नो वन्दु पिदरः पिदरो नो नो वन्दु पिदरः अवन्धु पिदरः पिदरो पिदरो हवेषु हवेषु पिदरो वन्तु वन्तु पिदरो हवेषु पिदरो हवेषु हवेषु पिदरः पिदरो हवेषु हवेष्विदि हवेषु